श्रीमद्भागवतमहापुराणम् एकादशस्कन्ध अथ त्रयोविंशोऽध्यायः एक्तिक्षु ब्राह्मण का इतिहास बादरायणि उवाच स एव मा संस्थित उद्धवेन भागवतमुख्येन दासार्हमुख्य मुकुन्द तमा भासे श्रवणीयवीर्यः वाच बार्हस्पत्य स वैनाद्र साधुर्वै दुर्जनीरितैः दृक्तैर्भिन्नमात्मानम् य समाधातुमीश्वरः न तथा तप्यते बिद्ध पुमान् बाणै सुमर्मगैः यथा तु दन्तिमरमस्था कथयन्ति महत्पुण्यम् इतिहासमिहोद्भव तमहं वर्णयिष्यामि निबोधम् सुतमाकित केनचिद्भिक्षुणा गीतम् परिभूतेन दुर्जनैः स्मृतादितियुक्तेन विपाकम् निजकर्मणाम् अवन्तेषु द्विजकश्चिन् दासीदार्ढ्यतमशियाम् वर्तावृत्कस्तु कामी लुति कोपन ज्ञातस्त वात्रेनाचिता शून्य वसत आत्मा काले कामर्चिता दुशील से दुह्यंधवा दा दुहितरो भृत्याष तस्यैवं यक्ष वित्तस्य च तस्योभयलोकतः धर्मकामविहीनस्य चुक्रुतो पञ्चभागिनः तद्वध्यानविस्तन् पुण्यस्कन्धस्य पूरित अर्थोऽप्यगच्छ निधनम् बहुवायासपरिश्रमः ज्ञातयो जागृह्यो किञ्चेत्किञ्चिद्दस्य उद्धव दैवतः कालतः किञ्चिद्ब्रह्मबन्धो नृपार्थिवात् स एवं द्रविणे नष्टे धर्मकामविवर्जितः उपेक्षितश्च स्वजने चिन्ताम् चिन्तामापदुरत्ययाम् तस्यैव ध्यायतो दीर्घं नष्टराय तपस्विनः खेद्यतो वा स्वकण्ठस्य स चाहेदमहो कष्टं वृथात्मा मेनुतापितः न धर्माय न कामाय यश्चार्थायास ईदृश प्रायेणार्था कदर्याणां न सुखाय कदाचन इह चात्मोपतापाय मृतस्य न रकाय शुद्धं श्लाघ्याये गुणिनां गुणः लोभसल्पोपितान् हन्ति पित्रोरूपमिवेप्चितम् अर्थस्य साधने सिद्धे उत्कर्षे रक्षणे व्यये नाशोपभोग आयासां सस्रासचिन्ता भ्रमूनाम् तेयम् हिंसा नृतम् दम्भ कामक्रोध स्मयो मदः भेदो वरं द्वैरमविश्वाससंस्पर्धाभ्यसनानि च एते पञ्चदशानर्थाम् ह्यर्थमूलामताण्डृढां तस्मादनर्थमर्थाख्यं श्रेयोर्थी दुरितश्चजेत् भिद्यन्ते भ्रातरो दारापितरसृहृहृदस्तथाम् एका स्निग्धा काकिमिना सद्य सर्वेरय कृता अर्थे नाल्पीयसा चेते सन्दब्धा दीप्तमन्यवः तदन्त्या सुस्मितोक्षन्ती सहसो सृज्यसोषितम् लब्ध्वा जन्मा मरुप्रार्थ्यं मानुष्यं तद्विजाग्र्यताम् तदनादित्य ये स्वार्थं क्षन्ति यान्ति शुभां सर्गापर्वयो द्वारं प्राप्य लोकामिमं पुमान् द्रवणे को नु सज्जेत मर्त्योऽनर्थस्य धामने देवर्षि पितृभूतानि ज्ञातीन् बन्धुस्य भागिन असंविभज्य चात्मानं यक्षवित्तत्यध व्यर्थेयार्थे हया वित्तं प्रमत्तस्य वयो कुशलाय न सिध्यन्ते जरठ किं नु साधये कस्मान् सङ्क्लिश्यते विद्वान् व्यरसयार्थे हयासके कस्य चिन्माययानूनं लोकोऽयं शिवमोहितः किं धनैर्धनैर्दैवा किं कामैर्वा कामदैरुनृतम् मृत्युनाग्रस्यमानस्य कर्मभिर्वोत जन्मदैः नो नम्बे भगवान् तुष्ट सर्वदेवमयो हरिः येन नीतोदसमिताम् निर्वेदश्चात्मन प्लवः सोऽहम् कालावशेषेण शोषयिष्येङ्गमात्मनः अप्रमत्तो खिलस्वार्थे यदि स्यासिद्ध आत्मने तत्र मामनुमोदेरन् देवा त्रिभुवनेश्वराः मुहूर्तेन ब्रह्मलोकं खट्पाङ्ग समसाधयत्